शैलगरुडातल वेङ्कटाद्रिनारायण त्रिवृषभा त्रिवृषात्रिमुच्याम् आख्याम् त्वदीयभसते दलितम् वधन्ति श्रीवेङ्कदातलपदेतवतु प्रभातम् सेवापदा शिव सुरे स कृतानुधर्म रक्षाम्बुनाथम धनाधिनाथाः मध्वाञ्जलि प्रविल सन्निज दीर्णदेशाः श्रीवङ्कटा जलपदे तव सु प्रभातम् धाति धृते विह गज मृगाधिराज नागिराज गजराज हजाधिराजा स्वस्वाधिकारमहिमाधिगमर्थयन्तेवङ्कटा जलपदे वतु प्रभातम् सूर्यन्तु भव मुधवत्पी काव्यसौरि स्वर्ध चतुरिषत्परिषत् प्रधानाः स्वदास दास निदान्तरङ्गाः कल्पा गताकलनजाकुलताम् लभन्ते श्रीवेङ्कदा दलपदे भवतु प्रभातम् मत्वा पुराद्यधिकदानि निरीक्षमाणाः स्वर्गापवर्ग्य पदवीम् भातम् श्रीभोविनायकदयाधिगुणामृताब्धे देवाभिदेव जगदे चरण्यमूर्ते श्रीमन्ननन्त गरुडादिभिरक्षिताङ्घ्रे श्रीवेन्तटाजलपदे तव सु प्रभातम् श्रीपद्मनाथ पुरुषोत्तमवासुदेव वैकुण्ठ माधवदनार्कनचक्रपाणे श्रीरति न करणायत पादिजात जीवन्त गुणाचरधित्यर्थं तता जलपदे तव तु प्रभातम् मीराजु कमखता नृसिंहन्निन् स्वामिन् पदस्मथ तपोधन रामचन्द्रां सदाम यदुनन्दन कल्किरोपा तथा जलपदे प्रभातम् एलालवङ्गधनसार सुगन्धि दीर्घम् दिव्यम् विजत् परिति हत सु पूर्णम् धृत्वाद्यवैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपदे भवतु प्रभातम् भास्मानुदयति विकटानि सदो लुहा जयन्ति निनदैस्तो विहङ्गाः श्री वै नवास्तनमङ्गलास्ते माश्रजन्ति तव वङ्कट सुप्रभातम् ब्रह्मा रजः मान्ति च तव हि मङ्गलवस्तु हस्ताः एव जलपदेतवतु प्रभातम् लक्ष्मीनिवादनिरवत्य गुणैकसिन्धा संसारका जलभवत् प्रदैकभे जनिरवैभवभत् प्रभ प्रभातम् लक्ष्मीनिवादनिरगत्य गुणैक सिन्ध संसारतादरभपत्परमैक वेद मेदाम् पवेद्य निधवैभवत् प्रभाज श्रीवन्त भवतु प्रभातम् चित्रम् वृषा जलपतेरिहतु प्रभात प्रतिदिनम् पथितुम् प्रवृद्धाः तेषाम् प्रभात समय स्मृतिरङ्गभाजाम् पत्याम्